गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायं ट्वेण्टि एय्ट् या पूर्वसर्गे दक्षपुत्री स दी दुरुद्रस्य पत्नी दक्षयज्ञे स्वदेहं विसृज्य सा मेनकायां च यज्ञे धराधराधेववधो वै सखा वै सकाशात् सा पर्वदारुद्रपत्नी खगेन्द्र या शेषपत्नी वारुणी नाम गदा बलभद्रेण रन्तुं द्विरूपमास्थाय महापतिव्रता श्रीरित्याख्या इन्दिरावेशयुक्ता तस्या द्विदिया द्वितीया प्रतिमामेघरूपा शेषेणरूपेण शे यदा हिवीन्द्र तपश्चचारविष्णुना सार्धमेव तदैव देवी वारुणी शेषपत्नी तपश्चक्रे इन्दिरा प्रीतये च तदा प्रीदा इन्दिरा सुप्रसन्नाम् उवाच तां वारुणीं शेषपत्नीं यदा रामो वैष्णवांशेन युक्तः सपत्स्यदे भूदले रौहिणे यः मय्या वेश्यात्संयुता त्वं तु भद्रे श्रीरित्याख्या वलभद्रस्य रन्तुम् सम्पत्स्य सेनात्र विचार्यमस्तीत्युक्त्वा सा वै प्रययौ विष्णुलोके श्रीलक्ष्म्यांशाच्छ्रीरिदीढ्यां समाख्यां लब्ध्वा लोके शेषपत्नी बभूव यदा हिशो विपुलामुद्धरे च तदा रामश्रीभिधा सङ्गमे च करोदितोषत् सर्वदा वै रमायास्तस्याप्यावेशो व्यं श्रितमो न सङ्गम् येवदीरैव तस्यैव पुत्री सवरुणि बलभद्रस्य पत्नी सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रषड्विष्णोश्च त्रिभ्यः द्विगुणाधमा रुद्रशेषादिकेभ्यो शदाधमा त्वम् विजानीहि गरुड उवाच रामेण सर्वदा वारुणी तु पुत्रीत्वमापेरेव तस्यैव त्रिरूपा वारुणी शेषपत्नी द्विरूपभूदा रुद्रपत्नी नीचाया जाम्बवत्याश्च शेषसाम्यं च कुत्रचित् श्रूयते च मया कृष्णनिमित्तं ब्रूहि मे प्रभो उमायाश्च तदा रुद्रः सदा बहुगुणाधिकः एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो रधी श्रीयुधा श्रीश्च शे शेषरूपा जवारुणी सौपर्णिपार्वती जैवतिस्रशेषांशदो वराह इत्यपि श्रूयते कृष्णपुत्र चिन्मधुसूदन निमित्तं ब्रूहि मे कृष्ण तव शिष्याय सुव्रता श्रीकृष्ण उवाच विज्ञायजाम् भवत्याश्च तदन्येषां खगाधिप उत्तमानां च साम्यं तु उत्तमा वेशतो भवेत् अस्ति गुणस्याभिह्युत्तमानामधीनता अस्तीद्योदनायैव शतांशाधिकमुच्यते यथा मयोच्यदेवेन्द्र तथा जानीहि नान्यथा तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः शरीरं तु पुरमित्युच्यते तं दारयदि वज्रेण यस्मा तस्मात् पुरन्दरः चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तुषष्टकः मन्त्रानष्टमहावीन्द्रदेवोद्योदयदे यदः मन्त्र्युम्नस्तदो लोके उभावप्येक एव तु मन्त्र्युम्नावतारोऽभूत्कुन्दी पुत्रोऽर्जुनो भुवि विष्णोर्वायोरनन्दस्य चेन्द्रस्य कवसत्तमा पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तिदः चतुर्थेऽपि जवायोश्च विशेषोऽस्ति सदा अर्जुन वाल्यर्नामावानरस्तु पुरन्दर इति स्मृदः चन्द्रवंशे समुत्पन्नो गादिराजो विचक्षणः मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः अधोगाधिरिति प्रोक्तस्तदर्थं भूदलेह्य भूद इक्ष्वागुपुत्रो वीन्द्र विक्षुरिति विश्रुतः स एवेन्द्रावतारो भूद्धरिसेवार्धमेव च विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा अधो विकुक्षिनामासौ भूलोगे विश्रुदः सदा रामपुत्रकुशप्रोक्त इन्द्र एव वा प्रकीर्तिदः वाल्मीकिऋषिणा यस्मात् कुशेनैव वा विनिर्मितः अदकुश इति प्रोक्तो जानकीनन्दनप्रभुः इन्द्रद्युम्नत्पुरेन्द्रस्तुगाधिवाली तदार्जुनः विभुक्षिकुशये वैदे सप्तचेन्द्रः प्रकीर्तिताः यकृष्णपुत्रप्रद्युम्न कामय्येव प्रकीर्तिदः प्रकृष्टप्रकाशरूपत्वात् प्रद्युम्न इति नामवान् यो रामभ्राधा भरदकामयेव भवद्भुवि रामाज्ञा भरदे यस्मात् तस्मात् सुदर्शनयुदि स्मृदः ब्रह्मैव कृष्णपुत्रस्तु साम्भोजाम्भवदी सुदः कामावतारो विज्ञेयसन्देहो नात्र विद्यते यो रुद्रपुत्रस्कन्दस्तु काम एव प्रकीर्तितः रिपूना स्कन्ददे नित्यमदस्कन्द इति स्मृदः यो ब्रह्म सनत्कुमारस्तु ब्रह्मपुत्रखगाधिप कामावतारो विज्ञेयो नात्रकार्या विचारणा सुदर्शनश्च परमप्रद्युम्न साम्ब एव च सनत्कुमारसाम्बश्च षडेते कामरूपकाखा ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ तयोर्मध्ये तु गरुडकाम इन्द्राधमस्मृदः प्राणस्त्वहङ्कार एव अहङ्कारकसञ्ज्ञकः गरुत्मदंशो विज्ञेय कामेन्द्राभ्यां दशाधमः तदनन्तरजान्वक्ष्ये शृणु वीन्द्रसमाहितः श्रवणान्मोक्षमाप्नोति महापापाद्विमुच्यते कामपुत्रो हरे निरुद्धोऽपि हरिरन्यप्रकीर्तिदः स से एवाभ्युद्धरे सेवां कर्तुं रामानुजो भुवि शत्रुघ्न यदि विख्यातशत्रून् सूदयदे यदः अनिरुद्धकृष्णपुत्रो प्रद्युम् नाद्यो जनिष्ठः सङ्कर्षणादिरूपैस्तु त्रिभिराविष्ट एव सः एवम् द्विरूपो विज्ञेयो ह्यनिरुद्धो महामदिः कामभार्यारधिर्यादुद्विरूपा सम्प्रकीर्तिता रुक्मपुत्री रुक्मवती कामभार्या प्रकीर्तिता अधिप्रकाशयुक्तत्वात् तस्मादृक्मवती स्मृदा दुर्योधनस्य या पुत्री लक्षणा सारधि स्मृदा काष्ठा साम्बस्य भार्या सा लक्षणं संयुनक्रियदः लक्षणाभिदया भूमौ दुष्टवीर्योद्भवाह्यपि एवं द्विरूपा विज्ञेया कामभार्या रदि स्मृता स्वायम्भुगो ब्रह्मपुत्रो मनुस्त्वाद्यो गुरौ समः राजधर्मेण विष्णोश्च जातप्रीणयितुं हरेः बृहस्पतिर्देव गुरुर्महात्मा तस्यावतारास्त्रय आसन् खगेन्द्र रामावतारे भरदाख्यो बभूव ह्यम्भो जावेशयुधो बृहस्पतिः देवावतारान्नुवानरां स्तारयित्वा श्रीरामदिव्या चरितान्यवादीर अदो ह्यसौ नारनाम बभूव ह्यङ्गत्वमाक्तुं रामदेवस्य भूम्यां कृष्णावतारे द्रोणनाम बभूव अम्भोजावेशयुधो बृहस्पतिः यस्माद् द्रोणासं बभूव गुरुश्च तस्मादस्सौ द्रोणसंज्ञो बभूव भूभार भूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमे वासभूमौ बृहस्पतिः पवनवेशयुक्ता स उद्धवश्चेत्यमिधानमाभ यस्मादुत्कृष्टो सकाह्यभूत्कृष्णदेवस्य नित्यं महामधिः सर्वलोकेषु पूज्यः दक्षिणाङ्गुष्टजो दक्षो ब्रह्मपुत्रो महामतिः कन्यां सृष्ट्वा हरे प्रीणन्ना स भूमा प्रजापतिः पुत्रानुतपादयद्दक्षस्त्वतो दक्ष इति शचीं भार्यां देवराजस्य विद्धि तस्याह्यवतारं शृणु सम्य खगेन्द्र रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसंज्ञका च रामामृदे वालिसंज्ञे पदौ हि सुग्रीवसङ्घं सा च पाराधतारा अधो नागास्वर्गलोकं च तारा क्व या या दन्तरिक्षे च पापा कृष्णावतारे सैवता राजवीन्द्रबभूव भूमौ विजयस्य पत्नी पिशङ्गदेदिह्यभितास्या च तस्या उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जनो वै महात्मा अधस्तोऽभेवारचित्राङ्गते च शचीरूपेणात्र विवार्यमस्ति पुलोमजामन्त्र्युम्नस्य भार्या याकाशिका काशिका गाधिराजस्य भार्या विकुक्षिभार्या सुमधिश्चेदि सञ्ज्ञा कुशस्य पत्नी कान्तिमधीदिज्ञा यदा हि सप्तह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र शचीरदिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः षडन्योन्यः समाः प्रोक्ता अधय प्रवाहो अधयप्रवहो वायुर्मुख्यवायोत्सुदो बली स वायुषु महानद्य स वै कोणाधिपस्तथा नासिकासु स एवोक्तो भौतिकस्तुल्य एव च अधिवाह स एवोक्द ह यदो गम्यो मुमुक्षुभिः दक्षादिभ्य पञ्चगुणाद्धमः सम्प्रकीर्तितः गरुड उवाच प्रवहश्चेदि सञ्ज्ञांस किमर्थं प्राप तद्वद अर्थः कच्छास्ति तन्नाम् न प्रतीतस्तं भगवान् देवगीसुदः उवाच परमप्रीतसंस्तूय गरुडं हरीः कृष्ण उवाच प्रहर्षेण हरेस्तुल्यान् सर्वदा वहदे यदः अद प्रवहनामासौ कीर्तितः पक्षिसत्तम सर्वोत्तमो विष्णुरेवास्ति ब्रह्मादयस्तदधीनाः सदाभि मयोक्तमेदत्तु सत्यं न मिथ्या गृह्णामि सर्वं नु सत्यं यदि मिथ्या भवेत् तदा त्वसौ एवं ब्रुवन्नुरकं कोपयुक्तं समग्रहीन्नादशत्सोऽप्युरङ्गः यदस्य सन्धारणा देववीन्द्र स यो वा लोके विष्णुमूर्तिम् विहाय दैत्यस्वरूप रेणुपाध्यात्कुदेवाः तेषाम् तथा मत्पितॄणाम् च पूजा व्यर्था सत्यम् सत्यमेतद्ब्रवीमि एतत् सर्वम् यदि मिथ्या भवेतु तदा त्वस्तौ माम् नयामि प्रवि हा यैव एदु पितृद्देशात् केवलं ह्य करोगि स पापात्मा नरकान्वै प्रयादित्येतद्वाक्यं सत्यमेतद्ब्रवीमि न श्रीस्वतन्त्राणाभिविधिस्वतन्त्रो न वायुदेवो नाभि शिवस्वतन्त्रः तदन्येनो गौरी पुलो म जाद्या नात्रा लोके स्वतन्त्रः ब्रवीमि सत्यं पुरुषो विष्णुरेव सत्यं सत्यं भुजमुद्धृत्य सत्यम् एतत् सर्वम् यदि मिथ्या भवेत्तु तदा त्व सौ माम् दश जीवश्च सत्य परमात्मा च सत्यस्तयोर्भेदसत्ये येदः सदाभि जडश्च सत्यो जीवजडयोश्च भेदो भेद सत्य किं च जडैषयोग्भि भेदः सत्यः सर्वजीवेषु नित्यम् सत्याजडानाम् च भेदाः सदाभि येदस्सर्वं यदि मिथ्या भवेत् तदा तु असौ दशदु मां ह्यहीन्द्रः एवम् ब्रुवन्नुरतं गोपयुक्तम् समग्रहीना दश समग्रहीना दशत्सोऽप्युरङ्गः ये दस्य सन्धारणादेव वीद्रे सा प्रवाहेत्यापसञ्ज्ञाम् द्वयं स्वरूपं प्रविदित्वैव पूर्वम् त्वम् स्वीकुरुष्व द्वयमेव नित्यम् स्नानादिकं च प्रकरोधि नित्यम् पापी स आत्मानैव मोक्षम् प्रयाति तस्माद्वयम् प्रविचाल्यैव नित्यं सुखी भवेन्नात्र विचाल्यमस्ति एतत् सर्वम् यदि मिथ्या भवेत् तदा त्वः सौ माम् दशदुह्यहीन्द्रः गरुड उवाच किम् तद्द्वयम् देवदेवेश किम् वा तत्कारणम् कीदृशं मे वदस्व द्वयोस्त्यागम् कीदृश्यं त्यागात् सुखम् कीदृशं मे वदस्व उवाच द्वयम् चाहुत्विन्द्रिये द्वे बलिष्ठे देहे ह्यस्मिञ्चोत्रनेत्रे सुसृष्टे अवान्तरे श्रोत्रनेत्रे खगेन्द्रद्वयम् चाहुस्तत्स्वरूपम् च वक्ष्ये श्रोत्रस्वभावो लोगवर्ता श्रुतौ जह्यदि वमोदस्त्वादरास्वादनेन हरेर्वार्ताश्रवणे दुःखजालं श्रोत्रस्वभावो जडदादमश्च नतस्वभावो दर्शने श्रीनराणां ह्यत्यादरान्नास्ति निद्राधिकं च हरेर्भक्तानां दर्शने दुःखरूपो विष्णो पूजा दर्शने दुःखजालं तयोस्वरूपम् प्रविदित्वैव पूर्वम् पुनः पुनः स्वीकरोत्येवमूढः शिशनम् मौर्ख्या चैव कुत्रापि योनौ सर्वदा ह्यादरेण भयं च लज्जानैव चास्ते वधूनां तथा नृणाम् वनितानां यदीनां स्वसारं ते ह्यविदित्वा दिनेऽपि सुवामयज्ञेन स्वाभावश्च वीन्द्र रसा स्वभावो भक्षणे सर्वदापि ह्यनर्पितस्यान्नभक्षस्य भक्षणे तत्स्वभावः अलेह्यलेखस्य च तोपे यस्य च तत्स्वभावः द्वयोस्वरूपं च विहाय मूढ नित्यं तस्य स्नानं व्यर्थमाहुश्च यस्मा तस्मात् त्याज्यं न द्वयो, द्वयो कार्यमेव अभिप्रायं ह्येदमेवं खगेन्द्रजानीहि त्वं प्रहस्यैव नित्यं भार्याद्वयम् च स्वरूपं स्वीकृत्य चैकां प्रविहायैव चैकां स्नानाधिकं गुरुदे मूढबुद्धिव्यर्थं चाकुर्मोक्षभोगौ च नैव एतत्सर्वं यदि मिथ्या भवेत् तदा त्वसौ गरुड उवाच भार्याद्वयं किं वद त्वं त्वयो तयोः स्वरूपम् किम्वदत्वम् मुरारे तयोर्मध्ये ग्राह्यभार्याम् वदत्वमग्राह्यभार्याम् चाभि सम्यग्वदत्वम् श्रीकृष्ण उवाच बुद्धिपत्नी साध्विरूपाकगेन्द्रदुष्टा चैकात्वपरा सुष्ठुरूपा तयोर्मध्ये दुष्टरूपाकनिष्टा ज्येष्ठा तु या सुष्टबुद्धिस्वरूपा कनिष्ठया नष्टदां यादिजीवस् सुतिष्ठन्त्या यादियोग्यां प्रतिष्ठां कनिष्ठाया शृणुवक्ष्यस्वरूपं श्रुत्वा तस्यास्त्यागबुद्धिं गुरुष्व जीवं यं वैप्रेरयन्ति कनिष्ठा क्व ब्राह्मणा क्वज च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञा क्व गावः क्व चाश्व क्व च स्नानम् क्व शौचमेतत्सर्वम् न मनाशम् करोति मूढम्पदिम् रेणुकाम् पूजयस्व माया देव्यादिपदानम् सुभैरवादीन् भजमूढत्वमन्द हारिद्रचूर्णन् धारये सर्वदापि ज्येष्ठाष्ठम्याम् ज्येष्ठदेवीम् भजस्व भक्त्या सूत्रम् गलबन्धम् कुरुष्व मरिगन्धाम्याम् मरिगन्धम् भजस्व तथा सूत्रम् स्वबले धारयस्व दीपस्तम्भं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक् पूजां कुरु त्वं हि भक्र्यादजीव लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र विहाय मौञ्जीदिवसे भाग्यकामत् सुगुगुलान्धारय स्वादिभक्रिया सुवासिनी पूजय स्वाशुभक्रिया गन्धै पुष्पैर्धूप दीपैः प्रदोष्य वार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवता देवतानाम् पिचुमन्तपत्राणि विदधत्य भूमौ नमः स्वत्वं क्षम्यता चेदि चोक्त्वा महादेवीं पूजय स्वाद्यभक् सद्वैष्णवानां मा ददस्वाप्यधान्नं सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च दे पश्यदो नाशमेदि स्ववामहस्ते वेणुपात्रे निधाय दीपम् धृत्वा सव्यहस्ते पदे उत्तिष्ठ भो पञ्चगृहेषु भिक्षाम् कुरुष्व सम्यक् प्रविहायैव आदौ गृहे च कृत्वा आदौ गृहे षड्रस्सान्नम् न भूत्वा जगत् गोप्यम् भोजनम् तच्छे शान्नं भोजयित्वा पदे त्वं तासां चरे शरणं त्वम् गुरुष्व तासां हस्तम् पुस्तके स्थापयित्वा त्राहित्येवम् तन्मुखैर्वाचयस्व त्वम् त्वम् खड्गदेवं पूजय यस्वाद्याभार्त् सत्सेवान् पूजयस्वाद्य सम्यक् तैः सार्धम् त्वम् श्वानशब्दम् कुरुष्व हरिद्राचूर्णम् सर्वदा त्वम् दधस्व कुरुष्व त्वम् भीमसेनस्य पूजा पञ्चामृतैषोडशभिश्चोपचारैः तत्कौपीनम् रौप्यजम् कारयित्वा समर्पयित्वा दीपमालाम् कुरुष्व तद्दासवर्यान् भोजय स्वाद्यभक्र्या गर्जस्व त्वम् भीमभीमेधिसुष्ठु तद्दासवर्यान् मोदयस्व स्ववस्त्रायैर्मद्यायैर्मां सद्द्रव्यजालेन नित्यम् महादेवम् पूजय स्वाद्य सम्यक् महा रुद्रैरधिरुद्राैश्च अरेत्युक्त्वा जङ्गमान् पूजयस्व शैवागमे निपुणाञ्चूद्रजातान् शाकम्भरीम् विवश सर्वशाकान् सूपाचयित्वा च गृहे गृहे च दतस्वभक्त्या परमादरेण स्वलङ्कृत्य प्राप्तु वंस्तदगुणांश्च कुलादेवं पूजय स्वाद्यभक्त्या त्वं दृग्भ्यां वै तद्दिने शम्भो बुद्ध्या यद्भक्तवर्यान् पूजय स्वाद्य सम्यक्तत्पादमूले वन्दनं त्वं कुरुष्व सुपञ्चम्यां मृण्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च सुनागपाशम्खिकले च बद्ध्वा तच्छेषान्नं भो जयेर्भोः पुनस्त्वं दिने च दुर्धे भोजयस्वाद्यभक्रिया नैवेद्यान्नं भो जयस्वाद्यसुष्ठु इत्यादिकम् प्रेरयित्वापदिं सा जीवेन नष्टं प्रकरोत्येव नित्यम् तस्या सङ्गा जीवरूपः पतित्वाम् सम्यग् दष्टामिह लोके परत्र तस्याः सङ्गम् सुविदूरम् विसृज्य चेष्ट्वा समग्रम् कुरु सर्वदा त्वम् सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुम् परमादरेण हरिं विनान्यं न भजस्व नित्यं सारेणु गात्वां तु न पालयिष्यति अदृष्टनामा हरिरेवं हि नित्यं फलप्रदो यदि न स्याद्गेन्द्रजुगुप्सितां च देवीं पदिद्रुहां सर्वदा सेवयित्वा तस्या प्रसादात्कुष्टभगन्तराद्यैर्भुक्त्वा दुःखम् यमिनीम् प्रयाहि तदा कुदेवी कुत्र गदा वद स्व न भजस्व देवीम् पदे भज त्वम् वैष्णवांश्च संसारदुःखातरान् संसारदुःखातारन् सुष्ठुरूपान् सेवादिकं प्रविहायैव स्वच्छं मायादेव्या भजनात् किं वदस्व ज्येष्ठाष्टम्यां ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीदिबुद्ध्या पूजयित्वा जम्यग तस्या सूत्रम् कलबद्धं च कृत्वा नाना दुःखं यदा पदे यमदूतैश्च पाशैर्बध्वाज सम्यक् ताड्यमानैः कशाभिः तदा लक्ष्मी कुत्र पलायदे सर्वतो मूलं विष्णुपादं भजस्व पदे भजत्वं सर्वदा वायुतत्वं न चाश्रयेस्त्वम् सूक्ष्मस्कन्धं चमूढ तद्वत् नवनीतम् च भक्त्या तद्युष्टि तदुच्छिष्टम् भक्षयित्वा पदेहि तस्याश्च सूत्रम् गलबद्धम् च इहैव दुःखान्यनुभूयाः पदे त्वम् यदा पदे तदा स्कन्दः कुत्र पलायते सावधो मूलं विष्णुपादं भजस्व दीपस्तम्भं दापयित्वा पदे त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या तदा बद्ध्वा य मधूतैष्टपाशैर्दीपस्तम्भैस्ताड्यमानस्तु सम्यक् दीपस्तम्भः कुत्र पलायितो भूदतो मूलं विष्णुपादं भजस्व लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्या स्वगले धारयत्वं यदा पदेयमदूतैश्च पाशैर्बद्ध्वा सम्यक् ताड्यमानकषाभिः तदा लक्ष्मी कुत्र पलायते सावधो मूलं विष्णुपादं भजस्व विवाहं मौं जी दिवसे मूढबुद्धे जुगुप्सितान् धारयित्वा शुभक्रिया वरारार्तिकम् कांस्यपात्रे निधाय कृत्वार्तिक्यम् उद उदैधिशब्दम् तथैव दष्ट्वा पिजुमन्दस्य पत्रं सुनर्तयित्वा परमादरेण यदा तदा यमदूतैश्च पाशाैर्बद्ध्वा बद्ध्वा ताड्यमानश्च सम्यग् तव स्वामिन् कुलदेवो महात्मन् पालयितः कुत्र मे तद्वदस्व स्वदेहानां पूजयित्वा जसाम्यक् कण्डाभरणैर्विधुराणां च केशैः संतिष्ठमाने यमदूदा बलिष्ठा सन्ताड्यमाने मुसलायिर्भिन्दिबालैः यदा तदा कुत्र पलायिता स चकृत्वा लम्बकर्णं च कृत्वा स्ववामहस्ते वेणुपात्रम् निधाय दीपम् धृत्वा सव्यहस्ते च मूढः भैक्षचर संतिषमानेगृहस ची यदा तमदूत मूठदीप सहस्रैर्द्यक निर्नाशी केणुुका मूठबुद्धे पलायिता कु वदस्व सदा मूठं खड्गदेवं च भक्त्या तं भक्तवत् पूजयित्वा च सम्यक् तैः सार्धम् त्वम् श्वानवद्गर्जयित्वा सन्तिष्ठमाने स्वगृहे चैव नित्यं यदा तदा यमदूतैश्च सम्यक् सन्ताड्यमानस्तत्र शब्दं प्रकुर्वन् संतिष्ठमाने भक्तवर्यम् विहाय तदा देव कुत्र पलायितो भूत स पार्थक्याद्भीमसेनप्रदीकम् पञ्चामृदै पूजयित्वा ज सम्यक् सुव्यञ्जने चान्यकौपीनमे वदत्वा मूठस्तिष्ठमाने स्वगेहे यदा तदा यमदूतैश्च सम्यक् सन्ताड्यमाने यममार्गे च मूढः भीमः स वै कुत्र मूलं विष्णुपादं भजस्व महादेवं पूजयित्वा च सम्यक् करे स्वगृहे विद्यमाने यदा गृहं दह्यदे वह्निनादु तदा कर भूद शाकम्भरी दिवसे सर्वमेव शाकम्भरी सा च देवी महात्मन् पलायिता कुत्र मे त्वं वद स्वकुलालदेवम् पूजयित्वा भक्र्या कार्पासं वै तेन दत्तम् गृहीत्वा सन्तिष्ठमाने यमदूतैश्च सम्यक् संहन्यमानस्तीक्ष्णधारै कुढारै कुलालदेवं च सुदंष्ट्रनेत्रम् विहाय वैकुत्र पलायि दो भुन्न जायदेन्वेषणाचापिकेन यदा पञ्चम्याम् मृण्मयीम् शेषमूर्तिम् सम्पूज्य भक्त्या विद्यमाने स्वगेहे तदा बुद्ध्वा यमधूताश्च सम्यक् संनह्यमाने नागपाशैश्च बद्ध्वा स्वभक्तवर्यं प्रविहाय नागपला युध कुत्र वै संवदत्वं दुर्वाङ्घुरैर्मोदकै पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव सन्दिष्टं मानेयमदूतैश्च सम्यक् सन्ताड्य माने तप्तदण्डैश्च मूढ दन्तं विहायैव विवाहकाले पिष्टदेवीं शुभक्रिया सम्पूजयित्वा विद्यमानो मानो स्वे यदा तदा यमदूतैश्च बद्ध्वा सम्पीड्यमानो यममार्गे समूढः पिष्टादेवी पीड्यमानं च भक्तं विहाय सा कुत्र भूद विवाहकाले रजकस्य गेहं गत्वा सम्यक् प्रार्थयित्वा चमूढः यस्तम्भसूत्रं कलशे परीत्य कृत्वा विद्यमानो गृहे यदा तदा यमदूतश्च सम्यक् स्तम्भसूत्रं तस्य मुखे निधाय सन्ताड्यमाने तम्भसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व विवाहकाले पूजयित्वा च सम्यक् चण्डालदेवीं भक्तवश्याञ्च तस्याः तद्भक्तवर्यै शूर्पमध्य च तीरे विद्यमानो गृहे स्वे ड्यमानो यममागे महद्भिः च ऊलदेवि क्व पलायिदाभूत् सुमूढबुद्धे विष्णुपादं भजस्व ज्वरादिभिपीड्यमाने स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् दूपैर्दीपैर् धूपैर्दीपैर्भक्ष्य भोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे यदा तदा यमधुदश बद्ध्वा सन्ताड्यमाने वेणुपाशादिभिश्च सब्रह्मदेवक्वपलायिदो भूत्समूढ बुद्धे विष्णुपादम् भजस्व सन्तानार्थं बृहदीं पूजयित्वा गलेन बृहदीं वै च सन्तिष्ठमाने यमधूतैश्च बद्ध्वा सन्ताड्यमाने बृहदी कण्डकैश्च तदा देवी बृहदि मूढबुद्धे पदायिता कुत्र मे तद्वदत्वं भजस्वमूढपरदैवतं च नारायणं तारकं सर्वदुःखाद सुक्षु द्रदेवेषु मतिम् च मा कुरु न च शृणुत्वम् फल्गुवाक्यम् तथैव सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन् संधायत्वं स्वकुलाचारधर्मं सम्पातने नरकं हेदुभूतम् कुनीः गात्रम् सर्वदा मूढबुद्धे मन्त्राष्टकैर्जन्मतीर्थे पवित्रे हृदि स्थिताम् मौर्ख्यमुद्राम् विहाय कृत्वा भूषाम् विष्णुमुद्राभिरग्र्याम् सदा मूढो हरिवार्ताम् भजस्वख्यायुर्गदम् व्यर्थमेवम् कुबुद्ध्या सद्वैष्णवानाम् सङ्गमो दुर्लभश्च क्षुब्धम् ज्ञानम् तारतम्यस्वरूपम् हरिं गुरुं ह्यनुसृत्यैव सत्यं गदिं स्वकीयां तेन जानीहि मूढ दग्ध्वा दुष्टां बुद्धिमेवं च सुबुद्धिरूपं मा भजस्वैव नित्यं मया सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा तेनैव मोक्षम् प्राप्नुमो नार्ज वैर्यतार्यविष्णो सम्प्रसादा च लक्ष्म्याः इत्याशयम् मनसा सन्निधाय तथा चोक्तम् भक्तवर्यो मदीयः अदो भक्तप्रवहेत्येव सञ्ज्ञामवावीन्द्रप्रकृतं तम् शृणुत्वम् इति श्रीगारूडे महापुराणे उत्तरखण्डे ब्रह्मकाण्डे तारतम्यनिरूपणद्वारा विष्णोदेवो पास्य त्वमित्यर्थनिरूपणं नामाष्ट विंशतमोऽध्यायः ओम् अध्यायं ट्वेण्टी नैन् प्रवहानन्तरान्वक्ष्ये शृणुपक्षीन्द्रसत्तम यो धर्मो ब्रह्मणपुत्रो ह्यादिसृष्टौ त्वगुद्भवः सज्जनान् सौम्यरूपेण धारणाद्धर्मनामकः स एव सूर्यपुत्रो भोग्यमः सञ्ज्ञामवापसः पापिनां शिक्षकत्वात् स यम इत्युच्यते बुधैः श्रीकृष्ण उवाच प्रह्ला गा प्रह्लादानन्तरं गङ्गाभार्या वै वरुणस्य च प्रह्लादादधमाज्ञेया महिम्ना वरुणाधिका स्वरूपादधमाज्ञेया ज्ञानस्वरूपदं विष्णुं यमो जानादि सर्वदा ततो गङ्गेदि साज्ञेया सर्वदा लोकपावनी भक्त्या विष्णु पदीत्येव कीर्तिता नात्र संशयः या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमधगेन्द्र वामस्य पादस्य नकाग्रतश्च निर्भिद्य चोर्ध्वाण्डकडाहखण्डं तदुदरमदिवेकसम्प्रविश्यावहन्तीम् जगदखतदिकन्धुपादकिञ्जल्कशुद्धम् निखिलं मलनिखन्द्रीं दर्शनात् स्पर्शनाच्च सकृतव गहनाद्वा भक्तिदां विष्णुपादे शशिखरवरगौरां मीननेत्रां स्मरदि हरिपदोद्धां मोक्षमेधिक्रमेण इन्द्रोऽपि वायु करमर्दिदवायु कुडुं बिन्दुं च प्राह्य शिरसि ह्यसिष्ण ह्यसहिष्णुमानः भगीरधीहरिपदाङ्गमिति स्मनित्यं जानन्महा परमभागवदप्रधानः भक्त्या च परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिव शिवो भूत भागीरथ्याश्च चत्वारिरूपाण्याः सन् खगेश्वर महाभिषक् जनेन्द्रस्य भार्या दुह्यभिषेचनी द्वितीयेनैव रूपेण गङ्गाभार्या च शन्दनोः सुषेणा वै सुषेणस्य भार्या स वानरी स्मृदा मण्डूकभार्या गङ्गाधुसैव मण्डूगिनी स्मृदा एवं चत्वारिरूपाणि गङ्गाया इति कीर्तितम् आदित्या चैव गङ्गाधपर्जन्यसमुदाहृतः प्रवर्षति सु वैराग्यं ह्यदपर्जन्यनामकम् चरंवराय पंचजनयाच पंच जग्ध्वा गकम षक्रमेण स्वाण से स्वृद्व भजे सदा नक्तिंशम च लिंगं पुष्ट नदिंगं पुष्ट कार्यमे सदा यो नौ शक्तिर्नैव कार्या स तदापि यो नौ मुक्ते सङ्गतो यादिमुक्तिं वैराग्यमेवं प्रकारोत्येव नित्यमदपर्जन्यस्त्वन्तकः पक्षिवर्य यदा वदाशरभाग्यो महात्मा स चान्तरो सदुपर्जन्य एव शश्वत्केशायस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाग्योपयोधः यमस्य भार्या या श्यामला या खगेन्द्र यस्मा सदा बलिभार्यापिया मत्वा सम्यक् मानसं जागरो दिह्यतश्च सा मलम् वक्ष्ये हरिभक्तेर्विरोधी सुलोभपात्रे सन्निधानं च तस्य तद्वैष्णवैस्त्याज्यमेवम् सदैव वस्त्रम् दग्धम् सन्धिजम् चैवजन्यम् चिकित्सितम् परदुःखम् खगेन्द्रहरेर्भक्तैस्ताज्यमेवम् सदैव नोच्चाच्च ते हरिभक्तेर्विहीनास्तेषां सङ्गो नैव कार्यः सदापि पुराणसम्पर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रं सुजीर्णकन्थाजिनमे कलं च यज्ञोपवीदं च कलिप्रियं च प्रियं गृहं चोर्णविदानकं च समित्कुत्शैपूरिदम् कुत्सितम् च सर्वं चेत् कलिभार्या प्रियं च नैव प्रियम् शार्ङ्गपाणे कदाचिद कांस्ये सुपक्वम् यावनालस्य चान्नम् तुषपिण्याकम् तुम्बविल्वे पलाण्डुः दीर्घं तक्रम् स्वादुहीनम् कडुष्णमेदे सर्वकलिभार्या प्रियाश्च सुदुर्मुखं निन्दनं चार्यजानां सदोवमत्यात्मजानां प्रहस्य सुपीडनं सर्वदा भर्तृवर्गे गृहस्थितव्रीहि वस्त्रादिचौर्याद प्रकीर्णभूतान्मूर्धजान् सं दधानम् करैर्युदं देवकलिप्रियं च इत्यादि सर्वं कलिभार्या प्रियं च सुनिर्मलं प्रकृरो प्रकरोत्येव सर्वम् अधश्च सा श्यामलेदि स्वसंज्ञामवाप सा देवगी सम्बभूवा युधिष्ठिरस्यैव बभूवपत्नी पत्नी संभाविता च देवकी चन्द्रस्य भार्या रोहिणी वैतदेयमश्विन्यादिभ्यो ह्यधिका सर्वदैव रोणीं धृत्वा रोहदियोग्यस्थानं तस्मात् च सा रोहिणी दिप्रसिद्धा आदित्यभार्या नाम संज्ञा खगेन्द्रज्ञेया सा नारायणस्य स्वरूपा संजानादित्येव संज्ञामवापसंज्ञेधि लोके सूर्यभार्या खगेन्द्र ब्रह्माण्डस्यभिमानी तु देवो विराडिदिह्यभिधामापतेन गङ्गादिषट्कं सममेव नित्यं परस्परं नौत्तमं नागमं च प्रधानाग्ने पावि कान्यैव गङ्गा सदा शुभानात्र विचार्यमस्ति आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिप्रीयदे केशवोलम् गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहा संज्ञाधि गुणा नैव स्वाहाकारो मन्त्ररूपाभिमानी स्वाहेधिसंज्ञामाप सदैव वीन्द्र अग्नेर्भार्यादो बुद्धिमान् सम्बभूवब्रह्माभिमानी चन्द्रपुत्रो बुधश्च बुद्ध्या हरद्वै राष्ट्रजातं च सर्वं धृतं त्वदो बुद्धसंज्ञामवाप एवं चाभूदभिमन्युर्महात्मा सुभद्राया जढरे ह्यर्जुना च कृष्णस्य चन्द्रस्य यमस्य चां शा स संयुक्तस् स्वस्विनोर्वैहरस्य स्वाहाधमश्चन्द्रपुत्रो बुधस्तु पादारविन्दे विष्णुदेवस्य भक्तः नामात्मिका त्वस्वि भार्याषा नाम प्रकीर्तिदा बुधा धमा सा विज्ञेया स्वाहा दशगुणाधमा न कुलस्य भार्या मागधस्यैव पुत्री शल्यात्मजा सह देवस्य भार्या उभेह्येदे अश्विभार्या ह्युषापि उपास्ते षड्गुणं विष्णुमाद्यम् अदोप्युषा सञ्ज्ञका सकगेन्द्र अनन्तराञ्छृणु वक्ष्ये महात्मन् शनैश्चरदि सर्वदा अधश्चनैश्चरो नाम उषायाश्च दशाधमाः कर्मात्मा पुष्करो ज्ञेयश्च नेरदयमोमदः नयाभिमानी पुरुष किञ्चिन्नम्रोदशावतर दशावरः हरिप्रीतिकरो नित्यं पुष्करे क्रीडदेयदः अधस्तु पुष्कले अधस्तु पुष्कलो नामलोके सपरिकीर्तितः हरिप्रीतिकरन् धर्मान्वक्ष्ये शृणुकगाधिप प्रावकाले समुद्धाय स्मरे नारायणं हरिं तुलसीवन्दनं कुर्यात् श्रीविष्णुं संस्मरेत्क विष्णोत्रोत् विन्मूत्रोत्सर्गकाले चक्ष्यपनात्मकेशवम् त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम् दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम् मुखप्रक्षालने काले, काले, काले माधवम् संस्मरेत्कदा गवां कण्डूयने चैव स्मरेद् गोवर्धनं हरिं सदा गोदोहने काले स्मरेत् स्मरेद् गोपालवल्लभम् अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसप्तमं स्पर्शे गवां चैव सदा नृणां वैभवत्यधो नात्र विचार्यमस्ति यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः तत्संसर्गाद्यादिदुःखादिकं च तस्य स्पर्शो नैव कार्यकदापि गोस्पर्शनविहीनस्य गोदोहनमजानदः गोपोषणविहीनस्य प्राहुर्जन्मनिरर्थकं गोग्रासमप्रदातुश्च गोपुष्टिं चाप्य कुर्वदः गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवस्मृदः वत्स्य ने च बालकृष्णं तु संस्मरेध दधि निर्मन्थने चैव मन्थाधारं स्मरेद्धरिं मृत्तिकास्नानकाले दुवराघं संस्मरोद्धरिं पुण्ड्राणां धारणे चैव केशवादींश्च द्वादश मुद्राणां धारणे चैव शङ्खचक्रगदाधरम् पद्मं नारायणी मुद्रां क्रुद्धोल्कादींश्च संस्मरेद श्रीरामसंस्मृतिं चैव सन्ध्याकाले खगोत्तम अच्युदानन्दगोविन्दान् श्राद्धकाले च संस्मरेद प्राणादिकपञ्चहोमे चानी रुद्धादींश्च संस्मरेद अन्नाद्यर्पणकाले दुवासुदेवं च संस्मरेद अपोषणस्य काले तु वायोरन्तर्गतं हरिं वस्त्रधारणकाले तु उपेन्द्रं संस्मरेद्धरिं च धारणे नारायणं वामनाख्यं स्मरेतु आर्तिक्यकाले च तथैव विष्णो सम्यक् स्मरेत् परशुरामाख्यविष्णुम् अपोशने वैश्वदेवस्य काले तदन्यहोमादिषु भस्मधारणे स्मरेतु भक्र्या परमादरेण नारायणं जामदग्न्याघ्यरामम् त्रिवारतीर्थग्रहणस्य काले कृष्णं रामं, रामं व्यासदेवं क्रमेण सङ्गोदकस्योद्धरणे चैवकाले मुकुन्दरूपम् संस्मरेत् सर्वदैव ग्रासे ग्रासे स्मरणं चैव कार्यं गोविन्दसञ्ज्ञस्य विशुद्धमन्नम् एकैकभक्ष्यग्रहणस्य काले सम्यक् स्मरेदच्युतं वैखगेन्द्र शाकादीनां भक्षणे चैव काले धन्वन्तर्यं स्मरे चैव नित्यम् तथापरान्नस्य च भोगकाले स्मरे च सम्यक् पाण्डुरङ्गं च विष्णुम् हयङ्गवीनस्य च भक्षणे वै सम्यक् स्मरेत् ताण्डवाख्यं च कृष्णम् परमं पुराणं गोपालकृष्णं संस्मरे चैव नित्यं दुग्धान्न भोगे च सम्यक् स्मरे श्रीनिवासंहरिं च सुतैलसर्पिषु विपक्वभक्षसम्भोजने संस्मरेद्व्यङ्कणेश्यं द्राक्षा सुजम्भोकदलीरसालनारिङ्गदाडिम्बफलानि चारु स्मरेतु रम्भोत्तमनारिकेलधात्री सुभोगे खलु बालकृष्णं सुपानकस्यैव जपानकाले सम्यक् स्मरे नारसिंहाघ्यविष्णुं गङ्गामृतस्यैव जपानकाले गङ्गातादं संस्मरेद्विष्णुमेव प्रयाणकाले संस्मरेत् पार्क्ष्यवाघं नारायणं निर्गुणं विश्वमूर्तिम् पुत्रादीनां चुम्बने चैव काले सुवेणुहस्तं संस्मरे कृष्णमेव सुखङ्ककाले स्वस्त्रियश्चैव नित्यं गोपी कुजद्वन्द्वविलासिनं हरिं ताम्बूलकाले संस्मरैश्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च शय्याकाले संस्मरे चैव नित्यं सम्कर्षणाख्यं विष्णुरूपं हरिं च निद्राकाले संस्मरेत् पद्मनाभं कथाकाले व्यासरूपं हरिं च सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत् सर्वदैव श्रीमत्तुलस्य छेदने चैव काले श्रीरामरामे धिजसंस्मरेतु पुष्पादीनां चेदने चैव काले सम्यक् स्मरेदेत् कपिलाख्यं हरिं च प्रदक्षिणे गारुडान्तर्गतं च हरिं स्मरेत् सर्वदा वैखगेन्द्र प्रणामकाले देवदेवस्य विष्णो शेषान्तस्थं संस्मरे चैव विष्णुम् सुनीतिकाले संस्मरे नारसिंहम् नारायणम् संस्मरे सर्वदापि पूर्तिर्यदा क्रियते कर्मणाम् च सम्यक् स्मरे द्वासुदेवं हरिं च एवम् कृतानि कर्माणि हरिप्रीतिकराणि च सम्यक् प्रगु वन्नेतानि पुष्करो हरिवल्लभः यदस्मदेव पक्षीश कर्म यत्समुदाहृतं पुष्कराख्यानमधुलं शृणोति श्रद्धयान्वितः हरिप्रीतिकरे धर्मे प्रीतियुक्तो भवेत् सदा इति श्रीगरुडे महापुराणे उत्तरकाण्डे ब्रह्मकाण्डे कृष्णगरुडसंवादे तत्त्वरहस्यम् नामैकोनत्रिंशोऽध्यायः समाप्तमिदम् गरुडमहापुराणम् इति श्रीगरुडमहापुराणम् समाप्तम् ओम्